मुद्गलपुराणं खण्डं 3 महोदरचरितम् अध्यायं फोर्टि फोर् ज्ञानारिवरप्राप्तिवर्णनं श्रीगणेशाय नमः युधिष्ठिर उवाच तव कृष्णमुखाम्भोजान्निःसृदां सर्वपावनीं कथां श्रुत्वा न मे तृप्तिर्जायते मृतपानवद ज्ञानाजिर्नाम दैत्येशस्य पुत्रो बभूवः किं कर्म तस्य यत्कृष्णचेष्टिदं वदविस्तराद यदर्थं गणराजः स देहधारी बभूवः न चरित्रं वै दैत्येशस्य जगद्गुरो कथं विष्णोश्च पुत्रो भूेशो ब्रह्मनायक चरित्र कि विस्तरावत केश मुगल उवाच युधिष्ठि भाव स ज्ञावा वृष्णिकुद्द नारायण कथम तस्म श्री श्रीकृष्ण उवाच रम्याम् युधिष्ठिरकथां रम्यां शृणुपापापनोदिनीं ब्रह्म भूयप्रदां ढुण्ढे सुचरित्राश्रितां प्रभो दुर्बुद्धिर्नाम दैत्येशोहदो हदो विघ्नहरेण च शिवपुत्रस्वरूपेण त्रैलोक्य विजयी पुरा तस्य पुत्रोऽयमुत्पन्नः संस्थितः स्वगृहे तथा बालभावाच्च धर्मज्ञा भवज्ञानारिनामकः तस्मै ददौ हर्षसमन्वितः रूपलावण्यसंयुक्तां सुकलां नामदस्वयं सदुयौवनमापन्नो पितरं सदा सस्मार सस्मारदुःखसंयुक्तो गणेशेन हदं पुरा वायुभक्षो महादैत्यो ज्ञानारिर्यत्नमस्थितः ना ततापतप उग्रं स वर्षाणामयुतं प्रभो ततस्तं प्रजयौ शम्भु पार्वत्या सहितस्वयमुवाच तं महाभक्तं भक्तवाञ्चा प्रपूरकः श्रीशिव उवाच वरं वृणुमहाभागतपसा तोषितस्त्वया दास्यामि वाञ्छितं दैत्य यद्यपि स्यात् सुदुर्लभं शिवस्य वचनं श्रुत्वा प्रबुद्धो दैत्यपुङ्कवः दृष्ट्वा शम्भुं मुदा युक्तः प्रणम्य पूजयामास तदस्तं दैत्यपः तुष्टाव सुस्तिरो भूत्वा शंकरं भक्तवत्सलं ज्ञानारिरुवाच नमस्ते शङ्करायैव पार्वतीसहिताय सहितायते वृषध्वजाय शैलादिवाहनाय नमो नमः अव्यक्तदेवाय च शिवाय शूल प्रधारिणे निर्गुणाय गुणानां ते चालकाय नमो नमः सदाशिवाय माया आधाराय नमो नमः मायामोहविहीनाय शम्भवे ते नमो नमः सृष्टे कर्त्रे जपत्रे ते संहर्त्रे त्रिस्वरूपिणे अनाधाय च सर्वेषां नाधाय परमात्मने चराचरस्वरूपाय नमो चरचरात्मने चरा महादेवाय देवानां पदये ते नमो नमः मनोवागदिरूपाय योगिध्येयाय ते नमः योगिनां पदये चैव महेश्वर नमोऽस्तु ते धन्यो वंशो मदीयोद्य येन दृष्टो महेश्वरः तपोज्ञानं पिता धन्यामे धन्या मे नात्र संशयः प्रसन्नोऽसि महेशान तदा देहि महाप्रभो चराचरस्य वैराग्यं तस्मान मृत्युन्नमे भवेत् यद्यदिच्छामि देवेश तत्तत्सिद्ध्यतु सर्वदा आरोग्यादिसमयुक्तं माम् कुरुष्व सदाशिव तथेधि शिव ऊचेतमन्तर्धानम् चकारः स दैत्यो हर्षितोऽत्यन्तम् स्वगृहम् प्रत्यपद्यत ज्ञानाजि कृतमेदत्तु स्तोत्रम् पठति यो नरः शृणोदि शङ्करस्तस्मै वाञ्छितं ददतेः परम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गरे महापुराणे तृतीये खण्डे महोदरचरिते ज्ञानारिवरप्राप्तिवर्णनं नाम शोध्यायः ॐ